श्रीहरये नमः अत एकविंशोऽध्यायः वितुर उवाच स्वायम्भुवस्य च मनोर्वं सपरमसम्मतः कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः प्रियौ सुतौ स्वायम्भुवस्य वै यथा धर्मं जुहुपतो सप्तद्वीपवती महीं तस्य वै दुहिता ब्रह्मकण्डे वहूतिति विश्रुता पत्नी प्रजापतेरुक्ता त्वया न गा तस्यां स वै युक्तायां योगलक्षणैर् ससर्जकथिता वीर्यं तन्मे सुश्रु वेवधां रुचिर्यो भगवान् ब्रह्मन्दक्षोभा दक्षोभा सुतः यथा स सर्जभूतानि लब्ध्वा पार्यां मैत्रेयौ उवाच प्रजा सृजेति भगवान् कर्तमो ब्रह्मणोदितः सरस्वत्यां तपस्तेपसहस्राणां समाधसा ततः समाधियुग्ने क्रियायोगेन कर्दमः सम्प्रभेत हरिं भक्त्या प्रपन्न वरधा सुषम् तावत् प्रसन्नो भगवान् पुष्कराक्षकृते युगे दर्शयामास तं शक् सप्तं ब्रह्म सथं सतं विरजमर्काभं सितपद्मोत्पलसृजं निर्दनीलालकौव्रात वक्त्राब्जं विरजोऽम्बरं किरीटिनं कुण्डलिनं शङ्खचक्रगधाधरं श्वेतोत्पलक्रीडनकं मनस्पर्श स्मितईशनं विन्यस्तशरणाम्बुजम् हंसतीश गरुत्मदः दृष्ट्वा केव स्थितं वक्ष श्रियं कौस्तु भगन्धरम् जातहर्षोपतन्मूर्त्नाक्षितौ लब्धमनोरथः गीर्भिस्त्वभ्यकृणा प्रीतिस्वभावात्मा ऋषिरुवाच जुष्टं पदात्या किल सत्वरासेसं सिद्ध्यम् अक्षणोस्तव दर्शनान्नः यद्दर्शनं जन्मभिरीट्य सद्भिः आसते योगिनोरूढयोगः ये माययाते हदमेदशस्त्व पाधारविन्धं भवसिन्तु भोतम् उपासते कामलवायदेशां, द्वेषां राशीषकामा निरयेऽपि ये स्युः तथा स साकं परिवोढुगाम समानशीलां गृहमेध प्रजापतेस्ते वचसादीशतन्त्या लोकिलायं कामहतोऽनुबद्धः अहं च लोकानुगतो बहामि बलिं च शुक्लानि विशायतुभ्यं लोकांश्च लोकानुगतान् वसूंश्च हित्वा श्रितास्ते शरणातपत्रम् परस्परं त्वद्गुणवादसीधू पीयूष निर्यापितदेह धर्माः न ते जराक्षप्रमिरायुरेषाम् त्रेयो दशारं त्रिशतं करालस्रोतो जगता एकस्वयं सज्जगतः शुश्रुष्या द्वितीययात्मन् अधियोगमायया सृजस्य धः पासि पुनर्ग्रथिष्यसे यधोर्ननाभिर्भगवन् स्वशक्तिभिर्नैधद्वताधीश पथम् तवेप्सितम् यन्माययानस्तनुषे भूत सूक्ष्मम् लसत्तुलस्त्यनुवा विलक्षितः त्वं परतक्रियार्थं स्वामायया वर्तितलोकतन्त्रम् न मा व्यभीक्ष्णम्जम् अल्बीयसी काभवर्षम् ऋषिरुवाच इत्यव्यलीकं प्रणुदोब्जनाभस्तमा वसरामृतेन सुपर्णभक्षो बरि रोचमान भ्रमेऽस्मिधोद्वीक्षण विभ्रमद्भ्रूः श्रीभगवानुवाच विदित्वा तव चैतं मे पुरैव समयोजित यथर्थमात्मनिय मे स्वत्वयैवाकं समर्चितः नभै जातो मृषैव मयि शङ्क्रभिदात्मनां प्रजापति स्तुतः सम्राण्मनोर्विख्यातमङ्गलः ब्रह्मावर्तं यो दिवसन् सास्ति सप्तार्णभामही ससेहे विप्रराजर्षिर्म शिष्याशतरूपया आयास्य परस्वो धर्मको आत्मजामसितापाङ्गीं वयशीलगुणान्विता मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभो समाहितं ते यत्रेमान् यत्प्रेमान् सात्वां सा त्वां जिष्यति यात आत्मभृतं वीर्यं नवता प्रसविष्यति वीर्ये द्वितीये ऋषय आतास्यद्यसा आत्मनः त्वं च सम्यगनुष्ठाय निदेशम् उसत्तमः मयि रत्वा दयां च जुबेषु धत्वा चाभयमत्मवान् मय्यात्मानं सह जगद्रक्षस्यात्मनि सहाहं स्वां सकलयात् वीर्येण महामुने तव क्षेत्रे प्रणेश्ये तत्त्वसंहितां मैत्रेयौ वाचाम् एवं तम् अनुभाष्य अथ भगवान् प्रत्यगक्षजहा जगामबिन्दुसरस सरस्वत्या निरीक्षतस्तस्य ययावशेष सिद्धेश्वराभिष्टुगसिद्धमार्गः आकर्ण्यन् पक्षैरुच्चारितं स्तोममुदीर्ण अतः सम्प्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः आस्ते स्वभिन्दुसरसित्थं कालं प्रतिपालयन् मनुष्यन्धनम् आस्थाय साधकौम्भपरिच्छधम् आरोह्य स्वां दुहितरं सभार्य पर्यटन्महीं तस्मिन् सुधन् भगवान् यत् समादिशत् उपायधाश्रमपदं मुनेः शान्तव्रतस्य तत् यस्मिन् भगवतो नेत्रात्न्यपधन्नश्रु बिन्दवः कृपया सम्परी तस्य प्रपन्ने अर्पितया भृशं तद्वै बिन्दुसरो नाम सरस्वत्या परिप्लुतं पुण्यं शिवामृधजलम् महर्षिगणे सेवितं पुण्यदृमलधाजालै कोचत् पुण्यमृगद्विजैः सर्वतुर्बलपुष्पाढ्यं वनराजिश्रियान्वितं मत्वद्विजगणैर्गुष्ठं मद्धप्रमरविभ्रमं मत्तबर्हिनटाटोपम् कथम्बशम्बकाशोक करञ्च बहुलासनैः कुन्दमन्दारकुडजै सूत पोतै अलङ्कृतं कारण्डवैप्लवैहंसे कुरैर्जलकुक्कुटैः सारसैश्चक्रवाहैश्च सखोरैर्वल्लुकूजितम् तथैव हरिणैक्रोढै स्वाविद्गवयङ्कुञ्जरैः गोभुश्चैर्हरिभिर्मर्घैर्नकुलैर्नाभिर्वृतं परविश्य तत्तीर्थवरम् आदिराजः सखात्मजहान् ददर्शमुनिमासीनं तस्मिन्कुतहुधासनं विद्योतमानं वपुषां तपस्युग्रयुजा शिरं नादीक्षामं भगवतः स्निग्धापाङ्गावलोकनात् तद्व्याहृतामृतकला पीयूषश्रवणेन च प्रांसुं पद्मपलासाक्षं जटिलं क्षीरवाससम् उपस्संत्यमलिनं यथार्हणम् असंस्कृतम् अतोमुपायातं नृदेवं प्रणतं पुरः सपर्यया पर्यगृह्णात् गृहीतार्हणमासिनं संयतं प्रीणयन्मुनिः स्मरन् भगवदा ते समित्याह श्लक्ष्णया गिरां नूनं सङ्क्रमणं देव सतां संरक्षणाय ते वधाय सा हरे शक्तिर्हि पालिनी योर्केन्दु अग्नीन्द्रवायूनां यमधर्म प्रचेतसा रूपाणि स्थान तस्मै शुक्लाय ते न महा नयधारथमास्ताय जैत्रं मणिगणार्पितं विस्फूर्जच्चण्डगोधण्डो रथेन त्रासयन्न गान् स्वसैन्यशरणशून्नं विकर्षन् ब्रहृतिम् सेनां पर्यटस्यम् सुमानिव तथैव सेतवः सर्वे वर्णाष्टमनिबन्धनाः भगवत्र चिता राजन् भित्तेरन् बतधस्युभिः धर्मश्च समेधेत लोलु पर्यङ्कुशैर्नभिः स याने त्वयि लोकोऽयम् द्यश्शुग्रस्थो विनङ्क्षयति अथापि पृच्छे त्वां त्वमिहागतः त्वमिहा गतः तत्त्वयं निर्व्यलीकेन प्रतिबध्या महे हृदा इति श्रीमद्भागवते महापुराणे तृतीयस्कन्ते एकविंशोऽध्यायः सर्व गोपी का जीवन स्मरण गोविंद गोविंद सद्गुनाज